नमो नमः सर्वेषां स्वागतं नमो नमः नमो नमः स्वागतं सर्वेषां धन्यवादः हरि ओं नमस्ते हरि ओं नमस्ते नमस्कारः नमस्ते नमो नमः अस्तु स्वागतम् आरम्भं कुर्मः गिनी प्रार्थनया आरम्भम् करोति वा अस्तु भगिनी कोटि वक्रतुण्डमहाकवया कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मेदेव सर्वकार्येषु सर्वदा या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रान्विता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माश्च्युतशङ्करप्रभृतिभिः देवैः सदा पूजिता सा माम् पातु सरस्वती भगवती निःशेषजाढ्यापः शान्ताकारम् सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगहृद्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् हरिः ओम् श्रीकृष्णाय नमः श्रीगुरुभ्यो नमः नमो नमः धन्यवादाः स्वागत धन्यवादः धन्यवाद अस्तु अस्माकं विषय अस्ति उपसर्गाः इति उपसर्गः इति विषय वयं जानीमः उपसर्गेण धात्वार्थो बलात् अन्यत्र नीयते एतादृशी स्थितिः तत् वयं बह बहूनि उदाहरणानि वयं दृष्टवन्तः इतोपि तत्र पाठस्य नामकरणं तत्र संशयात्मा विनश्यति इति पाठस्य शीर्षकमस्ति अतः तत्र तस्मिन् विषये आपी कथायाः पठनं वयं कुर्मः तत् गतसप्ताहे अपि वयं कृतवन्तः तस्मात् प्राक् अपि वयं कृतवन्तः अधुनापि संशयात्मा विनश्यति खिन्नसंशयाः मनस्थितिः कथं करणीया इति तत् वयं सर्वे तस्य चर्चा कथा एवं सर्वम् अनन्तरं कुर्मः प्रथमतः तु पुस्तकं प्रति अग्रे पठनं कुर्मः उपसर्गाः उपसर्गाणां योजनेन कथं परिवर्तनं भवति तेषां योजना कथं करणीया एवं सर्वं पश्यामः पुनः एकवारम् अस्तु अहं स्क्रीन् शेर् करोमि अधुना दृश्यते सर्वेषां स्क्रीन् दृश्यते अस्ति उपसर्गाणाम् आवलि द्वाविंशति उपसर्गाः सन्ति अनन्तरं तत् उपसर्गतुल्याः शब्दाः स्वीपत्यय इति कथमागच्छति तत् वयं पठितवन्तः कुत्रचित् धातोः उप तत्र सर्वेषु स्थलेषु धातोः पूर्वमेव भवति परन्तु कुत्रचित् अर्थपरिवर्तनं भवति कुत्रचित् अर्थस्य पोषणं भवति एन्हान्सिङ्ग् द मीनिङ्ग् इति वयं दृष्टवन्तः अधुना अग्रिमे अस्ति कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति केवल एकः उपसर्गः भवेत् धातोः प्राक् इति न द्वित्रा उपसर्गाः भवन्ति इति विषयः अस्ति अग्रिमे पठामः आगस्ट् महोदय भवान् आरम्भं करोति वा भगिनि हा पठतु कदाचित् धातोः पूर्वं मित्राः उपसर्गाः भवन्ति <coughs> यथा प्रति युग आ युग गच्छति प्रत्यागच्छति hmm. प्रत्यागच्छति प्रति अपि उपसर्गः तत्र आ अपि उपसर्गः अधुना किम् पश्यन्तु प्र त इ इति अस्ति अनन्तरम् आ इति अस्ति इ आ, तत्र यणसन्धि भवति इकारस्य यकार अनन्तरम् आकार अतः रूपं प्रत्यागच्छति इति भवति सम अग्रिमेति मकार हलन्तम् अनन्तरम् अ समधिगच्छति सम अग्रिमे अग्रिमे अत्र किम् अभवत् मकार हलन्त अनन्तरम् उत् अस्ति म अधिक उ भवति समु अनन्तरं तकार आकार अत्र किं भवति जस्त्व भवति जस्त्वसन्धि इत्युक्ते किं तकारस्य तृतीयवर्ण हा तवर्गे त थ द एते वर्णाः सन्ति तत्र तकार इति पथ प्रथमः वर्ण त थ द इति तृतीयवर्ण प्रथमवर्णस्य तृतीयवर्ण त द भूत्वा समुदाहरति इति रूपम् अग्रिमे अ, इकार, यकार, अकार अनन्तरम् अतः व्यवस्थापयति इति रूपम् अग्रिमे परिवर्तते प्रयोग नियोगपतति प्राणिपणिपतति अत्र प्रयोगनि अस्ति नि अनन्तरं रूपे प्रणिपतति भवति प्रणि नि भवति कथम् समान रेफ समान नकार प्र प्र, प्र प्र, तत्व जानी रिशाभ्या सनपद वाष स अधुना पूरे प्रतिपर्ग प्रुक् प योग तेफ अस्ट अतः नकार से प्रणिपतति इति रूपम् अग्रिमे परियोग उपयुपासते पर्युपास्ते पर्यु वारं वारं तत् आगच्छति भगवद्गीतायाम् एषः शब्दः पश्यन्तु अत्र किम् अभवत् परि अधिक उप अधिक आस्ते किञ्चित् लिखि पशा परी योगपयोग आस् पश्य परी योग उप, उपयुग आस् अ इकार अस्ति अत्र प र इ ह अनन्तरम् उप अस्ति इकार अस्ति उकार अस्ति हा इकारस्य यकार भवति यणसन्धि पर् य उ अस्ति अग्रिमे पर् यु उ प अधुना यकार उकार मिलित्वा भवति यु अधुना पर् यू य उ यू प अत्र रेफः अस्ति रेफस्य का विशेषता रेफः उच्चारणसमये वर्णस्य आदौ उच्चारणं भवति वर्णस्य प्राप् उच्चारणं परन्तु लेखनसमये किं भवति अग्रिमे यत् वर्ण तस्य उपरि गच्छति अतः एवं लिखामः खलु पर्यू इति समय पर्यू लेखनसमये पर्यू ह पर्यु प आ अत्र भवती सवर्णदीर्घसन्धि तेन भवति पकार आकार पा भवति पर्यु पा सते इति भवति अन्तिमतः अतः तत् रूपम अस्माकं पुस्तके पर्युपास्ते इति परि अधिक उप अधिक आस्ते इकारमध्ये यः इकार यकार यु भवति लेखनसमय रेफ् उपरि गच्छति यु उपरि गच्छति पर्युपास्ते स्पष्टमस्ति स्पष्टमस्ति ये जनाः पर्युपासते अनन्याश्चिन्तयास्सर्वे ये जनाः पर्युषा पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं भवामः वयम् इति खलु जयन्ति भगिनी भवती न न अनन्या चिन्तयन्तो मा ये जनाः पर्युपासते तेषां नित्ययुक्तानां पर्युपासते अत्र पर्युपासते अत्र आस्ते इति एकवचनान्तपदं वा बहुवचनान्तपदम् अनन्याश्चित् अनन्याश्चिन्तयन्तु अनन्याश्चिन्तयन्तु पर, पर्युपासते पर्युपासते हा परन्तु मम प्रश्नः आस्ते इति तत् हस्ते इति प्रथमपुरुषः तत्तु सत्यं hmm. hmm. परन्तु तत् आस्ते इति एकवचनान्तरूपं वा बहुवचनान्तरूपम् hmm. इति बहुवचनम् आगच्छति सत्यं ah. सत्यम् आस्ते बहुवचनान्तरूपं तत्र दृष्ट्वा वयं चिन्तयामः चेत् ते ते अन्ते अतः एकवचनान्तरूपम् इति मनसि आगच्छति परन्तु ये जलाः परिपातन्ते तेषां यथा भवती उक्तवती तथा तेषां सततयुक्तानाम् इति कारणेन तत्रापि बहुवचनं बहुवचनम् आगस्ट् मध्ये अग्रिमे पठति वा संयोगप्रयोगप्रेक्षति ति अत्रापि यः सन्ति व इ तस्य व्यतितरति इति व्यतितरति अस्तु एवं सर्वम् अस्ति कथं तत् द्वित्राः उपसर्गाः सन्ति तदा रूपपरिवर्तनं कथं भवति इति हा।, हा।, हा।, हा।, हा।, हा अधुना किञ्चित् मौखिकीरूपेण वयम् अभ्यासं कुर्मः अस्माकम् अवगमनार्थं तत्र अन्यकोपि उद्देशः इति न परन्तु अभ्यासः तत्र अस्तु अगस्ट् महोदय धन्यवादः धन्यवादः धन्यवादः अधुना भारतमहोदय हा अधुना अहम् उपसर्ग उपसर्गान् वदामि हा अनन्तरं धातु अपि वदामि तस्य रूपसिद्धिकरोतु मौखिकी केवलं श्रुत्वा एव हा प्रति प्रति अधिक उत् अधिक आ प्रति अधिक उत् अधिक आ उपसर्ग त्रयः त्रयः उपसर्गः हरति इति रूपं रुधातुम् um, प्रत्यु प्रत्युता योग्यं प्रत्युदाहरति उत्तमम् उत्तमं प्रत्युदाहरति दादा दा प्रत्युदाहरति उत उत तत्रापि पश्यतु उत् अनन्तरम आ भवति तत तत् व्यस्त्व तकारस्य तकार तृतीयवर्ण तकार, अतः तत उदा अत्रापि समुदाहरति अस्ति खलु तथैव उदाहरति okay. इतोपि एकं सम सम् अधिक उप, लभ, लभते सम सम् मुपलभते तत् समुपलभ्यते समु इति समु समु एकम् अत्र अस्ति श्लोके एव अस्ति तत् समुपलभ्यते समुप समूह अधिक उप तत् लभ्यते इत्युक्ते तत्र कर्मणि प्रयोग परन्तु भवान् यत् उक्तवान् तत् योग्यमेव हा अधुना अभि अभि अधिक उप गमधाति गच्छति अभि अधिक उप अभि अभि अभियोगे अभि अधिक उप अभ्युपगच्छति अभ्युपगच्छति अभि अधिक उप अभ्युपगच्छति अस्तु अभ्युपगच्छति okay. अभ्यु योग्यम् उत्तममस्ति उत्तममस्ति अधुना हा, हा? उत् अधिक गम गच्छति इति अधिक गच्छति तत् सकारस्य तकार उद्गच्छति योग्यं योग्यम् योग्यम् योग्यम् उत्तममस्ति महोदय अधुना भवानेव तत् अन्तिमं पठतु उपसर्गकारणतः का तद् अग्रिमे पठति वा कदाचित कदाचित् ओके उपसर्गकारणतः कदाचित् परस्मैपदी धातुः हु। आत्मनेपदीरूपम् आत्मनेपदि धातु धातुः हु। परस्मैपदी रूपं च प्राप्नोति यथा वियोग जयति परस्मैपदी mm -hmm. विजयते आत्मनेपदी mm -hmm. okay. प्रयोग तिष्ठति परस्मैपदी mm -hmm. प्रतिष्ठते आत्मनेपदी mm -hmm. वियोग क्रीणाति परस्मैपदी mm -hmm. mm -hmm. विक्रि विक्रीणीति विक्रीणीति विक्रीणि विक्रीणीते आत्मनेपदी आत्मनेपदी ओके okay, विक्रीणीते अवयोग तिष्ठति परस्मैपदी अवतिष्ठते आत्मनेपदी वियोग रमते आत्मनेपदी विरमति परस्मैपदी हा मूलतः रम् इति आत्मने पति धातु परन्तु वि उपसर्गयोजनेन तत्र विरमति इति भवति अस्तु एतत् सर्वं सूत्राः सूत्राणि तत्र सन्ति कथं जयति इति परस्मैपदे विजयते इति भवति तत्र परन्तु अधुना अस्माकं पुस्तके केवलं अवगमनार्थं दत्तमस्ति तत् यदा सम्भाषणे तस्य उपयोगं कुर्मः तदा विजयते प्रतिष्ठते विक्रीणिते अवतिष्ठते विरमति इति रूपाणि वयं योजयामः इति अस् अस्तु धन्यवादः महोदय धन्यवाद भगिनी दन्य। अस्तु अग्रिमे तत् जयन्ति भगिनी पठति वा यथोदाहरणम् उपसर्गसहितवाक्यानि वा चेत् पठामि यतो यतो उपसर्गसहितवाक्यानि रचयत यता छात्रः गृहम् आगच्छति आ, आ प्लस् गम् दातु ओके भक्तः देवं प्रणमति खलु सत्यं भगवान् युगे युगे संभवति सम्भवति सम्भवामि युगे युगे भगवान् युगे युगे सम्भवति अत्र पश्यतु भगिनी संसर्गपूर्व हु, सम्भवति हा तत् अनु उपसर्ग आगच्छति चेत् किं भवति भवतु अर्हति अनुभूयति अनुभूयते इति तत् अनुभव इति अनुभूयते इति इत्युक्ते तत्र एक्स्पीरियन्स् सम्भवति इत्युक्ते तत्र सम्भवामि युगे युगे तत् क्रियेशन् इति वदामः अधुना अप उपसर्ग आगच्छति चेत् तत् किं भवति अपभूयते अपभव अपभूयते अपभवति अपभूयते कर्मणीय भवत् परन्तु तत्र अर्थपरिवर्तनं शन्तु हा सम्भवति इत्युक्ते तत् अप हा वदतु अपभू अपभूयते इत्युक्ते किम् ऋयीन् इति वदामः अप अपभूतिः इत्युक्ते रुयिन् तत् नेगेटिव् मीनिङ्ग् अस्ति तथा परा आगच्छति चेत् भवति पराभव इत्युक्ते परा भवति इत्युक्ते तत्र विजयः नास्ति तत्र पराभवः इति तत्र इत्युक्ते भूधातोः कृते बहवः वह शब्दाः तत्र वि आगच्छति चेत् किं भवति वि भू विभू विभूयति विभूत विभवः इति शब्दः अस्ति तत् इत्युक्ते वेल्ट् इति विभवः अधुना उत् आगच्छति चेत् किं भवति उत। उद्भवति उद्भव उत्भावा इत्युक्ते उद्भवं जननं बर्त् इति अधुना परि आगच्छति चेत् किं भवति परियोगभूरि नह इत्युक्ते इन्सल्ट् परिभवनम् इत्युक्ते इन्सल्ट् इति उद्भवम् अनन्तरम् अति आगच्छति चेत् अति अति अतिबि इत्युक्ते तत्र किं भवति ग्रेटेस्ट् इति अति भवति ग्रेटेस्ट् आफ् आल् इति तत्र भूधातु हृदे अनन्तरं रूदादि बहवः उपसर्गाः बहवः अर्थाः अस्तु में पठतु सैनिकाः शत्रु शत्रून् संहरति तत्र बेनि सैनिकाः सन्ति खलु संहरन्ति संहरन्ति इति माता पुत्रान् परिपालयन्ति परिपालयन्ति एकवच माता एकवचन परिपालयति परिपालयति परि अत्र इत्युक्ते आलौण्ड् डेवलप्मेण्ट् खलु तत्र माता mm -hmm. oh, पालनम परिपालनं तत् केवलं पालनं नास्ति परिपालनं माता पुत्रान् परिपालयति छात्राः गुरून् परिपृच्छन्ति परिपृच्छति अत्रापि भावः कः सर्वे जानन्तु तत्र छात्राः गुरुन् परिपृच्छन्ति इत्युक्ते तत्र परि इत्युक्ते पश्यन्तु तत्र इत्युक्ते तत्र साधकबाधकचर्चा वा खण्डनं मण्डनम् एवम् इत्युक्ते तत्र गुरुगृहे छात्राः सर्व सर्वेषां ग्रहणं कृत्वा तेषां प्रश्न अत्र परीक्षायाः प्रश्न मञ्जु अनन्तरं मञ्जुषा अस्ति अनन्तरं तत् एव स्वीकृत्य तस्मात् एव स्वीकृत्य प्रश्नानि निर्माय एवं सर्वं न परिपृच्छ एकमि एकनिमिषं बेनि हा एकनिमिषं मे कविः काव्यं विलिखति व्यलिखति या या प्लस् विलिखति खलु बेनि विलिखति एव भवति विलिखति विशेषतया लिखति तत्र काव्यलेखनम् इत्युक्ते तत्र किमपि तत्र लिखन्तु अनन्तरं तस्य सादरीकरणं कुर्वन्तु इति न तत्र विशेषतया प्रतिभाशक्ति इति अस्ति खलु प्रतिभाशक्ति अनन्यसाधारणा प्रतिभा तया एव लिखन्ति इति विलिखति दुर्योधनः दुर्योधनः त्रौपदीन् त्रौपदीं उप प्लस् हस् उपहसन्ति दुर्योधनः बहुवचनं खलु बिनि तत् दुर्योधनः उपहसति उपहसति उपहसतिः एकवचनं दुर्योधनादिः इति उपहसनं परिहासं कृतवन्तः इति वदामः खलु तत्र केवलं चेष्टाः एवं तत्र कर्णः धनुर्विद्यां विस्मृतवा विस्मृ विस्मृतवत् विस्मृतवान् विस्मृत विस्मृत विस्मृतवान् खलु अत्र सर्वेषां वयं लट्लकारे योजयामः खलु स्मृधूतः लट्लकारः किं भवति स्मृति अत्र पश्यन्तु स्पृ इति विस्मरति एकवारं लिखामः वि स्पृ इति विकरण अत्र ऋकारस्य गुण भवति स्मर् इति स्म र विस्मर्ति इति सः तु विस्मृतवान् तत्तु वयं जानीमः तत् युद्धप्रत्ये परशुरामस्य साधु धर्मं साधुः धर्मम् अनुसृत साधु अनुसृतवती न तत्र श्रु धातोः किं रूपम् अनुसरति सारी अत्रापि गुण भवति अग्रिमे कृष्ण कृष्णः सर्वान् अपकृत अपकृत अपकरोति अपकरोपकरोपकरो कृष्णः सर्वान् उपकरोति सर्वान् तत्र अर्जुनस्य कृते गीता उक्ता परन्तु सर्वेषां जगतः लाभदायी गीता खलु उपकरो अग्रिमे गङ्गा हिमालयात् निस्सरति निस्सरति सत्यं सै सैनिकाः आयुधानि संगृह्णाति hmm. गृह्णाति संगृह्णाति युधिष्ठिरः गुरोः पादौ प्रक्षालयति hmm. hmm. hmm. प्रक्षालनं करोति सत्यं hmm. hmm. पर्याप्तं धन्यवादः किञ्चित् समयपर्यन्तम् अहं मौ, मौने इच्छामि बेनि मौनम् एवम् अस्तु अस्तु आम् अस्मि अस्तु अस्तु अस्तु अग्रिमे धन्यवादः विना भगिनि अन्तिमतः चतुर्दशतः पठतु सत्वात् ज्ञानं सञ्जायते अधर सम उपसर्गपूर्वकथं लेखनेन लेखनसमये कथं अस्ति अनन्तरं मकारस्य परिवर्तनं हा प्रथमतः किं भवति मकारस्य परिवर्तनम् अनुस्वारे भवति खलु सञ्जायते अनन्तरं किं भवति अनुस्वारस्य परसवर्ण तत्र क्रमेण यथा भवती उक्तवती तत् सञ्जायते एवम् अस्ति परन्तु क्रमः कः प्रथमः मकारस्य अनुस्वारः अनन्तरम् अनुस्वारस्य जकार अग्रिमे इत्युक्ते च वर्ग छञसर्ण अनुस्वारस्य परसवर्ण सञ्जायते इति अस्तु भगिनि मकारस्य अनुस्वार अनुस्वारस्य परसवर्ण परस्य सवर्ण परे जकारवर्ण परे जकार अस्ति च वर्गे अस्ति च वर्गस्य अनुस्वारसवर्ण अतः सञ्जायते अस्तु भगिनि अग्रिमे अर्जुनः कृष्णं प्रभाष् प्रयोगभाष् अर्जुनः कृष्णं प्रभाषते प्रभाषते प्रभाषते इत्युक्ते प्रकर्षेण तत्र वाचा आ, भगवता वाचा एवं सर्वं वयं वदामः तत्तु भगवतः वाणी भगवद्गीतायाम् अस्ति परन्तु अर्जुनः इति प्रश्नकर्ता अर्जुनः प्रश्नकर्ता अस्ति अर्जुनस्य मनसि ये ये प्रश्नाः अस्माकं सर्वेषां मनसि एतादृशाणां प्रश्नानां तत्र ग्रहणमस्ति एव किं करणीयम् अधुना अहं किं करोमि अस्तु यः तु मम सः अस्ति तत्तु मम आप्तः अस्ति कथम् अहं व्यवहरामि एवं सर्वं सर्वेषां मनसि अस्ति परन्तु अर्जुनः कथं वदामः आन् द बिहाफ् आफ् आल् ओफ् अस् तत्र mm. प्रकर्ष भाषणं कृतम् अतः mm -hmm. प्रभाषते रैट् mm. अतः अर्जुनः प्रभाषते इति अस्तु भगिनि अग्रिमे योगारूढः कर्मसु न अनुसज्जते तत्कर् योगारोगः कर्म अनु अनुसञ्ज संजा, अनुसञ्जायते वा अनुसञ्जते पश्यन्तु अनुयोग लिखित्वा कुर्मः अनुयोग अनुयोग सज्ज सज्ज इति अस्ति इति अस्ति अस्तु अनुयोग सज्ज हलन्त अस्ति तत् सज्जते भवति तत्र तस्य सज्जते अधुना अनुसज्जते इति रूपं तस्य परिवर्तनं भक्ति अनु सज्जते श आगच्छति अत्र अनुषज्जते किमर्थं तत् सकारात् प्राक् अत्र उकार अस्ति खलु नकार उकार सकार इति स्थितिः एवं खलु अस्ति यत्र यत्र प्रत्यहारे ये वर्णाः इत्युक्ते इ उ न इ वा उ अस्ति चेत् सकारस्य शकार भवति तत् अनु उपसर्ग अनन्तरं सज्जते अनु इति अनन्तरं सज्जते तत् षज्जते इति भवति यतो हि तत्र उकार अस्ति अतः सकारस्य सकार, सकार अनुषज्जते अत्र अर्थदृष्ट्या पश्यन्तु सर्वे अर्थदृष्ट्या किं भवति योगारूढः कर्मसु न अनुषज्जते योगारूढः इत्युक्ते किम् योगस्य पाल पालनं कर्तुम् आम् यः योगपालनं करोति इत्युक्ते योग योगे ये तत्त्वाः या ये तत्त्वाः सन्ति तस्य तत्त्वपालनं कर, करोति योगविषयकतत्त्वपालनं करोति इत्युक्ते सः योगारूढः कर्मसु कर्मसु इत्युक्ते वास्तविकरीत्या तत् कर्मसु इत्युक्ते कर्मफलेषु न अनुशिक्षते अनु इत्युक्ते टु फालो इति हा तत्र अस्तु अहम् एवं कर्म करोमि मम एतादृशं फलं भवेत् तस्य प्राप्नोमि तस्य मम फलप्राप्तिः भवेत् इति चिन्तनं नास्ति हा यः योगीपुरुषः योगारूढः योगारूढमनस्कः तस्य कर्मफलेषु सः न अनुषज्यते इत्युक्ते न धावति इत्युक्ते टु फालो तत् प्रसन्ट् कर्मफले तस्य फलेषु तस्य आसक्ति नास्ति इति अस्तु भगिनी अधुना मूढाः देवं न प्रपद्यते मूढाः अस्ति अतः किं भवति प्रपद्यते बहुवचनान्तमस्ति अतः प्रपद्यन्ते प्रपद्यन्ते मूढाः देवं न प्रपद्यन्ते इत्युक्ते किं भवितुमर्हति भवत्याः चिन्तनं वदतु मूढाः इत्युक्ते मूर्खाः भगिनि मूर्खः देवं न बिलीव् करोति तत्तु योग्यं योग्यमेव परन्तु श पश्यन्तु तत्र अर्जुनः वदन्ति mm -hmm. प्रपद्यन्ते इति शब्दस्य सह उपयोगं करोति इत्युक्ते शरणागतं शरणागतलीनः mm -hmm. टोटल सरेण्डर् इति वदामः खलु mm -hmm. तत् भगवतः इच्छानुसारेण mm -hmm. इति तस् तेषां चिन्तनं नास्ति मूढाः किं वदन्ति तेषां चिन्तनं कीदृशम् अहमेव करोमि मम कारणात् एव एतत् सर्वम् अभवत् अहङ्कारयुक्ता आचरणं तेषां शिश... न प्रपद्यन्ते परन्तु अर्जुन वदति खलु तत् शिष्योऽस्ति अहम् तव शिष्योऽस्मि अहम् तव शिष्यः अस्मि अतः चरणं प्रपद्यामि प्रपद्यते इत्युक्ते चरणम् आगच्छामि इति तावत् एतादृशी ते, मनस्थिति मूढाः जनाः तेषां विषयकः नास्ति इति देवं न प्रपद्यन्ते इति अस्तु भगिनि असु वस्तुतः पश्यन्तु पदगतौ पदधातुः अपि गत्यर्थक् अस्ति परन्तु प्र उपसर्गस्य योजनेन तत्र शरणागतः इति भावः आगच्छति न केवलं गतः शरणागतः प्रपद्यन्ते वा प्रपद्यन्ते अस्तु अधुना कथा संशयात्मा विनश्यति यथा अहम् उक्तवती तादृशमेव अस्माकं कथायाः चयनं शिष्यास्तु छिन्नसंशयाः इति कथा किं दृश्यते खलु सर्वे च दृश्यते अधुना तत् श्यामलाभगिनी अस्ति वा अस्तु भगिनि अस्ति भगिनि श्यामलाभिनी भवती पठति वा आरम्भं करोति शिष्याः हा अस्तु भगिनी अहं पठामि शिष्यास्तु छिन्नसंशयाः सकलानन्दः सः एव लेखकः नैमि नैमिशा पुराणप्रवचनादिकम् अपि निरन्तरं प्रचलति स्म सू, सूतमुनिः प्रवचनकर्ता श्रोतुम् अनेके मुनयः उपस्थिताः भवन्ति स्म तेषु वयसा ज्येष्ठाः अपि भवन्ति स्म सूतमुनिः प्रवचनस्य आरम्भसमये ऐ बालाः समाहितमनस्काः भवतः hmm. इति वदति स्म hmm. hmm. अग्रिमे अपि पठतु अनन्तरं ऐ ऐ ऐ बालाः इत्येतत् तद् ऐ बालाः इत्येतत् तदीयं सम्बोधनम् केभ्य hmm. केभ्यक्षित् के के ज्येष्ठेभ्यः मुनिभ्यः hmm. न अरोचत् ते hmm. अचिन्तयत् वयं तु वयसा ज्येष्ठाः स्मः सर्वे hmm. जनाः अस्मान् आधारेन पश्यन्ति किन्तु अयं hmm. सूतमुनिः तु आत्मानं महाज्ञानिना मन्यमानः मन्यमानः एतत् अन्तिमं वाक्यं श्रोतृस्थानस्थान् मन्यमानः श्रो श्रोतृस्थानस्थान् अस्मान् बालत्वेन सम्बोधयति अस्माकम् उपमानाय एतत् इति अपमानाय एतत् अपमानाय एतत् एतत् इति किं दत्तमस्ति स्वशब्दै विवरणं करोति वा किमस्ति अत्र नैमिषारण्यैमि नैमिषारण्ये यज्ञागादिकं यथा तथैव पुराणप्रवण प्रवचनादिकमपि निरन्तरं प्रचलति स्म नैमिषारण्यस्तरे तः यथा यज्ञ यज्ञं करोति यज्ञं पुराणप्रवचनं निरन्तरं प्रचलति तथैव सूता स्यूतमुनिः प्रवचनकर्ता एव श्रो श्रोतुम् अनेके मुनयः उपसि उपस्थिताः भवन्ति स्म आ, सर्वे स सर, सर्वे मुनयः उपस्थिताः श्रोतुं भवन्ति स्म ते तेषु वयसा ज्येष्ठाः अपि भवन्ति स्म बहवः hmm. त तत्र बहवः वयसा ज्येष्ठाः एव भवति, वयसा भवन्ति श्रोतुं तत् इति सूतमुनिः प्रवचनस्य आरम्भसमये ऐ बालाः समाहितमनस्काः भवतः इति वदति स्म सूत्रमुनिः प्रवचन आरम्भसमये सर्वे बालाः उपविशतु इति वदति हा आ, आ, उपर, उपर, उपर आ, अत्र पश्यन्तु ऐ बालाः ऐ इति सम्बोधनपदं समाहितमनस्काः अत्र समाहितमनस्काः मनस्काः पश्यन्तु मनस्का इति मनसः स्थितिदर्शकः शब्दः शून्यमनस्काः इति वदामः शून्यमनस्काः कोऽपि अप्शन् मैण्डेड् अस्ति तदा शून्यमनस्काः तत् दुर्बलमनस्काः इति मानसिकस्थितिदर्शकः एषः शब्दः समाहितमनस्कः इत्युक्ते किम् अत्र हि हित हा इत्युक्ते सर्वेषां मनसि समानधारणा ईश्वरविषयकचिन्तनस्य धारणा हा सर्वेषां मनसि सम सम एव समविचाराः सम समानधारणा इति अतः परमेश्वरविषयकचिन्तनं भवेत् वा तत्र आत्मज्ञानविषयकचिन्तनम् एवम् अतः समाहितमनस्कः लैक् मैण्डेड् पीपल् इति वदामः खलु वी आल् आर् लैक् मैण्डेड् पीपल् अतः समाहितमनस्कः इति वदति स्म अग्रिमे किम् अभवत् अयि बालाः ऐ बालः इत्येतत् तदीयं सम्बोधनं केभ्यश्चित् ज्येष्ठेभ्यः मुनिभ्यः न आरोचत् ऐ ऐ बालः इत्येतत् सम्बोधनं केभ्यचित् ज्येष्ठः मुनिभ्यः नोचते इत्युक्ते तेभ्यः कथं वयं बालाः वयं तु वयसा ज्येष्ठाः वयम् अनुभौ अनुभवसम्पन्नाः कथं वयं बालाः अग्रिमे पश्यन्तु ते किम् अच अचिन्तयन् ते ते अचिन्तयन् वयं तु वयसा ज्येष्ठाः स्मः सर्वे जनाः अस्मान् आधारेण पश्यन्ति आदरेण पश्यति पश्यन्ति <laughs> इत्युक्ते आदरयुक्तभावनया सर्वे अस्माकं प्रति तेषां व्यवहार आदरयुक्तभावनया परन्तु एषः सुतमुनिः तु, तु? <laughs> पश्यन्तु <थी। laughs> आत्मानम् महाज्ञानिनम् मन्यमानः श्रोतृस्थानस्थान् अस्मान् बालत्वेन सम्बोधयति पश्यन्तु <laughs> बहवः शब्दाः तत्र बहूनि विशेषणपदानि स्वस्य विषये आत्मानं महाज्ञानिनं वयं महाज्ञानी वयं स्वस्य विषयकः तेषां चिन्तनं पश्यन्तु सर्वे वयं महाज्ञानीं वयं महाज्ञानी इति मन्यमानः वयं श्रोतृस्थानस्थान् इत्युक्ते तत्र mm -hmm. यतो हि वयम् स्मः परन्तु सर्वेषां श्रोतृ श्रोतुः मनसा अस्माकम् उच्चस्थानमस्ति अस्मान् बालत्वेन सम्बोधयति कथं बालः इति बालत्वेन सम्बोधयति एषः सुतमनि अस्माकम् अपमानाय एतत् वयं न बालाः वयं तु ज्येष्ठा ज्ञानवृद्धाः तत्वो वृद्धाः इति सस्यविषयक तेषां चिन्तनम् अस्तु अस्तु अस्तु अस्तु धन्यवादः धन्यवाद धन्यवादः पत्नी अग्रिमे अम्बिकापतिमहोदय भवान् पठति वा प्रतिदिनमपि तत्र आरभ्य प्रतिदिनमा प्रतिदिनमपि एषा एव परिपाटी अनुवर्तते स्म एतत् तैः ज्येष्ठैः मुनिभिः शोढुं न शक्तम् अतः ते विष्णुसमीपं गत्वा अपृच्छन् अयं वयसा कनीयान् सूतमुनिः ज्येष्ठान् अस्मान् अदृश्यः इति उद्दिश्य अयिबालाः इति यत् वदति तत् किम् उचितम् इति यदा यदा विष्णुः अवदत् एतस्य उत्तरम् अहं वक्तुं न अर्ह अर्हामि भवन्तः ब्राह्मणम् पृच्छन्तु इति ब्रह्माणम् इति ब्रह्माणं पृच्छन्तु मुनयः ब्रह्मो देवसमीपं गताः तेषां कथं श्रुत्वा ब्रह्मा अवदत् एतस्य उत्तरदाने अहमपि असमर्तः भवन्तः शिवम् उपसम् उपसंसर्प्य उपसंप्य प्रष्टुम् अर्हति इति अर्हन्ति हा अधुना विवरणं ददाति वा स्वशब्दैः किमभवत् वयसः न तृप्तवान् आई मुनिः बालः इति किं वदति आम् कृष्णः अपि कृष्णः सः ब्रह्म वक्तुं न शक्नोति अतः अधुना एकमेकम् एकमेकं स्वीकुर्मः प्रतिदिनमपि एषा एव परिपाटी अनुवर्तते स्म इति प्रथमं वाक्यम् तत् प्रथमं वाक्यं स्वीकृत्य परिपाटी इति परिपाटी अनुवर्तते इत्युक्ते किं परिपाटी इत्युक्ते द सेम् थिङ्ग् हेपण्ड् हा ऐ बालाः सम्बोधनम् अस्ति आरम्भे सः ऐ समाहितमनस्काः इति हा तत् प्रतिदिनम् एवम् एव वदति स्म इत्युक्ते सुतमुनि आरंभे अयि विपाटी एष् क्रम प्रतिदिन अवर्त प्रथमे वाक्य न अनमस्ट ज्येष मुनि सो न कि सोढुं सोढुम् इत्युक्ते सह धातुः अस्ति सह, सहने इत्युक्ते सोढुं न शक्तम् इत्युक्ते नाट् एबल् टु टालरेट् इति सह न सह्यते इति नाट् ना एबल् टु टालरेट् तैः ज्येष्ठैः मुनिभिः सोढुं न शक्तम् अयि बालाः इति प्रतिदिनं सम्बोधनं तेषां सोढुं न शक्तम् इत्युक्ते तेषां न सह्यते प्रतिदिनम् एव, एवं सम्बोधनं पदं बालाः बालाः तत न सह्यते इति सोढुं न शक्तम् अनन्तरम् अतः ते विष्णुसमीपं गत्वा अपृच्छन् अयं वयसा कनि हा किं किम् अपृच्छन् वदतुः ज्येष्ठान् अस्मान् उद्दिश्य hmm. ऐ बाला उद्दिश्य इत्युक्ते yeah? सम्बोधने इति उद्दिश्य रेफ्रिङ्ग् रेफ्रिङ्ग् उद्दिश्य ऐ बालाः yeah. इति yeah? तत् किम् hmm. उचितम् इति ah. न उचितम् इत्युक्ते तत्र प्रश्नः अस्ति तत् किम् उचितम् इति प्रश्नः अस्ति तत्र तत् परन्तु अर्थदृष्ट्या तेषाम् उद्देशः एतत् उचितम् नास्ति एतत् योग्यम् नास्ति अयि बाला इति सम्बोधने अस्माकं तस्य तस् उल्लेखः सः करोति एतत् उचितम् नास्ति अयोग्यमस्ति नास् इति हा अधुना विष्णोः उत्तरम् किमस्ति महोदय अहं न शक्नोमि इति विष्णु अवदत् सत्यं तत् कथायाम् एवम् अस्ति सर्वे आगच्छन्ति अनन्तरं कदा कदा ब्रह्माणं पृच्छन्ति तदा ब्रह्मदेवः वदति विष्णुं पृच्छतु विष्णुः विष्णुं पृच्छति तदा विष्णुभगवान् वदति ब्रह्माणं पृच्छन्तु तत् बहुषु स्थलेषु दृश्यते एव हा अधुना भवन्तः ब्रह्माणं ब्रह्माणं पृच्छन्तु अत्र पश्यन्तु ब्रह्मन् इति ब्रह्मन् इति भगवद्गीतायां कुत्रचित् स्थलेषु तत्र अस्ति तद् ब्रह्मन् इति अपि अस्ति तथैव ब्रह्मन् तद् ब्रह्मदेव इति अर्थः अस्ति तत् पुल्लिङ्गि अस्ति हा ब्रह्मन् इति येन सर्वमिदं ततम् इत्युक्ते सर्वव्यापकः सर्वव्याप्तब्रह्म तत् भिन्नं हा परन्तु ब्रह्मदेव इति ब्रह्माणं पुल्लिङ्गिशब्दः ब्रह्माणं पृच्छन्तु इति अस्तु धन्यवादः महोदय धन्यवाद <laughs> अग्रिमे तत् विणा भगिनी अग्रिमे पठतु मुनयः अस्तु भगिनि मुनयः शिवसमीपं गताः शान्ततया तेषां कथनं न तत्र मुनयः ब्रह्मदेवसमीपं गता तत् भवन्तः ब्रह्माणं पृच्छन्तु इति विष्णुः अवदत् खलु अतः मुनयः ब्रह्मदेवसमीपं गता ओ अस्तु मुनयः ब्रह्मदेवसमीपं गताः तेषां कथनं श्रुत्वा ब्रह्मा अवदत् एतस्य hmm. उत्तरदाने अहमपि असमर्थः भवन्तः शिवम् hmm. उपसर्प्य प्रष्टुम् अर्हन्ति इति hmm. मुनयः ब्रह्मदेवसमीपं गताः तेषां कथनं श्रुत्वा ब्रह्मा वद ब्रह्मा वदन्ति अवदा... ब्रह्मा वदति hmm. hmm. एतस्य उत्तरः अहमपि अहमपि दा... दा... दातुं न शक्नोमि भवन्तः शिव शिवस्य समीपं गन्तुम् अर्हन्ति इति उक्तवान् <coughs> <coughs> <coughs> भवन्तः शिवम् उपसर्प्य अत्र धातुः प्रत्ययः उपसर्गविषये वदति वा <coughs> निश्चय <आँ, ना>, <coughs> योगं सत्य उप इति अस्ति तत्तु सत्यम् उपसर्ग सत्य समीप अत्र पश्यन्तु तत् स्रु इति धातुः अस्ति स्रु भगिनि स्रु हा तस्य लेप् प्रत्ययान्तरूपम् उपसर्गः आगच्छति उप इति रूपेण प्रिफिक्स् अस्ति यदा प्रिफिक्स् अस्ति तदा किं भवति लेफ्ट् प्रत्ययः आगच्छति हा स्रुधातु तस्य लेफ्ट् प्रत्ययान्तरूपम् उपसर्प्य इति प्रत्यय लेफ्ट् प्रत्ययस्य अर्थ त्वा प्रत्ययस्य समान एव अर्थः त्वा प्रत्यये गन्तुम् उदाहरणस्य तद् गमधातु गत्वा इति भवति त्वा प्रत्यय परन्तु उपसर्ग आगच्छति चेत् आगत्य इति भवति तथैव अत्र उप अस्ति अतः उपसर्प्य इति ल्यप्प्रत्ययान्तरूपं लम् अस्तु अधुना प्रष्टुं विषये वदतु तत् प्रत्ययः कः प्रत्ययः तत् वदति वा प्रयोग प्रष्टुम् इत्युक्ते पृच्छम् <laughs> आमां सत्यं आम, <शर्त्या, laughs> तत्तु मुन्प्य गन्तुं वक्तुं प्रच्छतु पृच्छतु तत् प्रष्टुम् इति भवति न न तत्र उपसर्गः नास्ति उपसर्गः तत्र नास्ति पृच्छ पश्यन्तु पृच्छ मूलतः पृच्छति इति रूप तस्य धातुः किम् प्रच्छ इति धातुः अस्ति हा प्रच्छ धातुतः पृच्छ इति रूपं लिखित्वा लिखित्वा लिखित्वा किञ्चित् मनसि आगच्छति पश्यन्तु पृच्छति इति रूपम् प्रश्नान् पृच्छति इति वयं जानीमः एकं वदामः पृच्छति मूलतः धातु कः इति धातु पृच्छ अस्ति तस्य रु भवति पृच्छति इति परन्तु तत्र अत्र तून् प्रत्यय आगच्छति रेफस्य रू कदा भवति लट्लकारे भवति लट्लकारे लङ्लकारे तत् विधिलिङ्गलकारे अनन्तरं तत लोट्लकारे एवं भवति परन्तु अत्र तून् प्रत्यय आगच्छति खलु प्रष्टुम् इत्युक्ते गन्तुं वक्तुं चलितुम् एवं तून् प्रत्य अत्र का गच्छति पृच्छ तस्य पृच्छ भवति प्रच्छ एव छकारस्य तत्र एकं सूत्रमस्ति तेन छकार भवति व्रश भ्रज सृजं भृजयजराज भ्राज छशांशः इति एकं सूत्रं तेन किं भवति छकारस्य प्रश् भवति अुना तकार, तकार से टुम अतः तत्म्मंस् तकार शकार से टकार शुसुसंधि टकार से योग प्रष्टुकीम पर मूलत धा किंतया कि प्रच्छा ृच्छति पृच्छ पृच्छति अतः तत्र भवन्तः ब्रह्माणं पृच्छन्तु इति अस्ति खलु अत्र तस्मिन् वाक्ये किमस्ति तदा विष्णुः अवदत् एतस्य उत्तरम् अहं वक्तुं न अर्हामि भवन्तः ब्रह्माणं पृच्छन्तु इत्युक्ते लोट् Mm. प्रच्छ एतस्य पृच्छ परन्तु mm -hmm. अत्र किं भवति प्रच्छ एव तत् तुमुन् प्रत्यय अस्ति लका लकारः नास्ति लट् लकारः अस्ति वा न लोट् लकारः वा न लङ् लकारः अस्ति mm. वा न विधिलिङ्गलकारः अस्ति वा न अतः तत्र प्रच्छ तु पृच्छ इति स्थितिः नास्ति तत् पृच्छ एव पृच्छ प्रश् इति परिवर्तनम् अस्तु न पश्यन्तु एतस्मिन् स्तरे किञ्चित् क्लेशकारकः भवितुम् अर्हति परन्तु शनैशनैः वयं पुनः पुनरावर्तनं कुर्मः तत् मनसि किञ्चित् आमाम् आगच्छति तत् मनसि <laughs> तिष्ठति अपि अस्तु एवमस्ति अतः तत्र प्रष्टुमिति अस्तु अग्रिमे किम् अग्रिमे पठतु मुनयः मुनयः शिवसमीपम् गताः शिवः शान्ततया तेषाम् कथनम् अशृणोत् ततः सः स्वस्य रुद्ररूपम् परित्यज्य दक्षिणमूर्तिरूपेण भद्रमुद्राम् धरन् वसवृक्षस्य अधः उपविष्टवान् दक्षिणमूर्तेः मुखात् Hmm. उत्तरवचनं निर्गच्छेत् इति मुनयः प्रतीक्षमाणाः आसन। किन्तु hmm. दक्षिणमूर्तिः ध्यानमुद्रया तूष्णीम् उपविष्टवान् hmm. तस्य मुखात् किमपि उत्तरम् न आगतम् hmm. ीपं गताः शिवः तेषां शान्ततया अशृणोत् तस्य कथाम् अशृणोत् श्रुतवान् ततः श्रुतवान् श्रुतवान् ततः सः रुद्ररूपं परित्यज्य दक्षिणामूर्तिरूपेण भद्रमुद्रां धरन् भद्र मुद्रा कि भगिनी तुद्रा अस्सी खलु तत्व मुद्रा अंतरवाद आशीर्वाद मुद्रा आग शास्त्रे मुद्रा सी खुद भद्रावी अन शाद मुद्रा चिन्मय मुद्रा बहूनी मुद्रा सी भगिनी हा ध्यान ध्यानमुद्रा अपि अस्ति ध्यानमुद्रा ज्ञानमुद्रा एवं सर्वम् अस्ति तेषु एव मुद्रा तासु तासु एव भद्रमुद्रा इति एका मुद्रा स्वीकुरु स्वीकृतवान् वटवृक्षस्य अधः उपविष्टवान् वटवृक्षः इत्युक्ते वटविवृक्षः इत्युक्ते वा आम् आम् सत्यं सत्यम् दक्षिणामूर्तिरु अग्रिमे hmm. दक्षिणामूर्तेः मुखात् uh, उत्तरवचनं निर्गच्छेत् इति मुनयः प्रतीक्षमाणाः आसन् hmm. मुनयः प्रतीक्ष प्रतीक्षम् कुर्वन् प्रतीक्षाम् इति प्रतीक्षमाणाः इति शान च प्रत्यय प्रतीक्षमाणः प्रतीक्षमाणः प्रतीक्षा इत्युक्ते देवेर् आल् <odit> <वाल> वेटिङ्ग् लेट् <देक odit> उत्तरवचनं <वच्चनम> निर्गच्छेत् सः <odit> <odit> किमपि <पी> वदेत् मुखात् <odit> <इतिक। odit> किमपि <पी> आगच्छति <odit> <odit> सर्वे प्रतीक्षमाणाः किन्तु परन्तु दक्षिणामूर्तेः ध्यानमुद्रया तूष्णीम् इत्युक्ते hmm. शान्ततया वा सत्यं योग्यं शान्ततया तूष्णी hmm. शान्ततया दक्षिणामूर्तिः एत एतमुद्रं धार धरित्वा उपविष्टवान् धृत्वा hmm. धृत्वा धृत्वा उपविष्टवान् hmm. उपविष्टवान। तस्य मुखा उपविष्टवान् तस्य hmm. मुखात् किमपि उत्तरं न आगतम् उत्तरं न दत्तवान् न no, no, दुत्तर किमपि न उक्तवान् शान्ततया तुष्णीम् इति हा सत्यम् एतावत् पर्यन्तं सम्यक् सम्यक् धन्यवादः भगिनि धन्यवादः तत् अग्रिमे अगस्ट् महोदये भवान् पठति वा मुनयः आत्मचिन्तने ततः आं भगिनि मुनयः आत्मचिन्तने आत्मावलोकने च मग्नाः अभवन् भगवत् भगवतत्वचिन्तनात् जीवात्मा परमात्मादि मननात् स्वस्वरूपज्ञानात् च तैः स्वस्य ज्ञानस्य अल्पता अवगता वयं वस्तुतः बालाः एव इति ते अवगतवन्तः सम्यक् सम्यक् अधुना वदति वा स्वशब्दै किम् अभवत् अस्तु चिन्ता मास्तु अस्तु अस्तु पश्यन्तु हा अस्तु चिन्ता मास्तु महोदय मुनयः आत्मचिन्तने आत्मावलोकने च मग्नाः अभवन् पश्यन्तु मुनयः मग्नाः मग्नाः इस् टु गेट् एङ्ग्रोस्ड् इन् देट् मग्नाः फुल्लि इन्वाल्ड् इन् देट् कुत्र आत्मचिन्तने आत्मचिन्तने इत्युक्ते आत्मविषयकः चिन्तनम् आत्मनः चिंतनम् आत्मा अवलोकने पश्यन्तु आत्मावलोकने इत्युक्ते आत्मा अवलोकने अत्र अव इति उपसर्गः अस्ति तेन भवति पश्यन्तु लोकन अवलोकनं तस्य दृष्टिः तत् केवलं पश्यति इति न अवलोकनं करोति इत्युक्ते तस्य चिन्तनमस्ति प्रकर्षेण सः पश्यति हा तत्मा आत्मावलोकने आत्मचिन्तने च मग्नाः अभवन् अधुना किम् अत्र तेषां प्रथमता तु सर्वेषां मुनयः तेषां प्रति प्रतीक्षा अस्ति कस्य प्रतीक्षा अहं वचनानि शिवस्य मुखात् वचनानि निर्गच्छन्ति अनन् अनंत, अनन्तरं तानि वचनानि वयं श्रुत्वा तस्य उपरि तत् उपदेशप्रदाणि तत् आगच्छति इति तेषां चिन्तनम् परन्तु दक्षिणमूर्तिस्वरूपं शिवस्य दक्षिणमूर्ति इति रूपं तत् यत् शिव धारितवान् आसीत् धृतवान् आसीत् शिवः दक्षिणरू मूर्तिरूपम् धारयन् किमपि न उक्तवान् ध्यानमुद्राम् स्वीकृत्य तूष्णीम् एव सः तत्र उपविष्टवान् किमपि न उक्तवान् अधुना शिवः किमपि न वदति अनन्तरम् बहुकालयावत् प्रतीक्षां सर्वे मुनयः कृतवन्तः प्रतीक्षां तु तत्र प्रतीक्षमाणाः मुनयः आसन् परन्तु अनन्तरम् किञ्चित् कालानन्तरम् आत्मचिन्तने आत्मस्वरूपस्य अवलोकम् आत्मनः चिन्तनम् ते आरब्धवन्तः अग्रिमम् भगवत्तचिन्तनात् जीवात्मपरमात्मादिमननात् स्वस्वरूपज्ञानात् च हा पश्यन्तु किं किम् अभवत् तत्र तुष्टिं स्थितवान् अधुना तत्र मुनेहे अवलोकनं आत्मचिन्तनं मुनिनां तत् प्रचलन् अस्ति भगवतत्त्वचिन्तनम् आत्मतत्त्व आत्मतत्त्वस्य चिन्तनं भगवत्तत्त्वस्य चिन्तनं जीवात्मा पर परमात्मादिमननात् जीवः परमात्मा परमात्मस्वरूपम् परमात्म तत्र जीव जीव इति ऐक्यरूपम् परमात्मनः स्वरूपम् एतादृशं चिन्तनं तत्र प्रचलत् अस्ति स्वस्वरूपज्ञानात् अत्र स्वस्वरूपम् स्वस्य विषयकयथार्थज्ञानम् अहं किमस्ति तत् जानीमः खलु ोऽहम् कोऽहम् इति कोऽहम् इति आरम्भे बालकः वदति कोऽहम् अनन्तरं सोऽहम् सः एव अहम् अहं कः अहं सः एव अहं परमात्मनः एकं स्वरूपम् एकः अंशु एकः बिन्दु परमात्मस्वरूपात् एव मम उत्पत्ति स्वस्वरूपज्ञानात् च एवं सर्वं तेषां चिन्तनं मनसि प्रचलत आसीत् तैः स्वस्य ज्ञानस्य अल्पता अवगता यदि वयं मनसः दृष्ट्या तस्य अवलोकनं कुर्मः तदा किं भवति ओ अहं किमपि न जानामि मम ज्ञानं तु अल्पज्ञानमेव ज्ञानस्य अल्पता अवगता तैः हा तत् कर्मणि प्रयोगः अस्ति तैः अल्पता अवगता ज्ञानस्य अस्माकं समीपे तु बिन्दुमात्रं ज्ञानं ज्ञानं तु विशालम् व्याप्तं सर्वेषु स्थलेषु तत् वयं किमपि न जानामि इति यथार्थस्वरूपं तैः अवगतं स्वस्य ज्ञानस्य अल्पता अवगता अग्रिमम् पश्यन्तु तत्र अग्रिमे वाक्ये वयं वस्तुतः बालाः एव वस्तुतः यथार्थस्वरूपेण वयं बालाः वयं न वयसा ज्येष्ठाः वयं न श्रेष्ठाः वयं न ज्येष्ठाः वस्तुतः बालाः एव इति ते अवगतवन्तः इत्युक्ते तुस्मिम् उपविष्टवन्तः तेन भवति मनसि आत्मज्ञानं जनयति चिन्तनं भवति आत्मस् आत्मनः अवलोकनं भवति भगवततत्त्वस्य परमात्मनः यथार्थस्वरूपस्य ज्ञानं मनसि उत्पद्यते तेन वस्तुतः यथार्थरूपे वयं बालाः एव न वयं किमपि न वयं ज्येष्ठाः न वयं श्रेष्ठाः न वयं तु माला एव इति ते अवगतवन्त अस्माकं समीपे यद् ज्ञानमस्ति तत् अल्पज्ञानम् अल्पज्ञानेन एव वयं गर्विष्ठाः न तथा वस्तुतः इति तेषाम् अवगमनम् अभवत् अस्तु अधुना स्पष्टमस्ति आगस्ट् महोदय अस्तु अस्तु परन्तु हा शनैः शनैः स्पष्टता भविष्यति निश्चयेन भवान् उत्तमप्रकारेण पठितवान् आसीत् अद्य अस्तु अस्तु धन्यवादः धन्यवादः अग्रिमे भारतमहोदयः भवान् पठति वा एवं दक्षिणामूर्तेः ततः आरभ्य भारतमहोदय अस्ति वा एवं दक्षिणामूर्ति एवं दक्षिणामूर्तेः मौनस्वरूपम् एव तेषां संशयनिवारणस्य ज्ञानोदयस्य कारणं जातं ते दक्षिणामूर्तिम् ते दक्षिणामूर्तिं पक्त्या नमस्कृतवन्तः hmm. एतस्याः घटनायाः ज्ञापकः hmm. अयं श्लोकः लोके नितरां प्रसिद्धः चित्रं वटतरोर्मुल्ले वृद्धाः hmm. शिष्याः गुरु गुरुयुवः गुरुर्व्युव्युवा गुरुस्तु hmm. गुरु गुरु मौनं व्याख्या व्याख्यानं शिष्यास्तु खिन्नसंशयाः इति hmm. अधिना वदतु एकमेकं एकम वाक्यं स्वीकृत्य वदति वा एवं मूर्तेः मौनस्वरूपम् एव तेषां नानो ज्ञानोदयस्य च कारणं जातं सो आ, आ, आ, सो सः मौ दक्षिणामूर्तेः mm -hmm. मौनस्वरूपं mm -hmm. संशयनिव निवारणस्य mm -hmm. कारणं जातम् mm -hmm. mm -hmm. अधुना पश्यतु शिवदक्षिणामूर्ति इति स्वरूपे किमपि न उक्तवान् मौनस्वरूपम् उपदे उपदेशम् उपदेशपरवचनानि उक्तवान् इति नास्ति मौनस्वरूपमेव हा तत् मौनस्वरूपमस्ति अतः तथा तत् मौनस्वरूपं मौनकारणात् एव तेषां चिन्तनं तेषाम् आत्मस्वरूपस्य यथार्थज्ञानं हा संशयनिवारणस्य ज्ञानस्य उदयस्य कारणं जातम् बहु किमपि पठनं करोमि शृणोमि तदा एव ज्ञानस्य उदयः भवति मनसि इति नास्ति hmm. अस्माभिः चिन्तनं करणीयम् अधुना स्वस्य योगाभ्यासे एव तथैव अस्ति खलु तत् yeah. तुष्टिम् उपविष्ट श्वास उपरि ध्यानमग्नता वा एवं सर्वम् अस्ति योगाभ्यासे तेन तस्मादेव तेषां संशयनिवारणम् अभवत् ज्ञानस्य उदयम् अभवत् इति कारणं जातं ते दक्षिणामूर्ति दक्षिणामूर्तिं भक्त्या नमस्कृतवन्तः सा दक्षिणामूर्तिं नमस्कृत नमस्कार करोति नमस्कारं कृतवन्तः सत्यं सर्वे नताः दक्षिणामूर्तिं स्वरूपं यदस्ति तत् नमस्कारं सर्वे नताः नतवन्तः इति एतस्याः घटनायाः ज्ञापकः अयं श्लोकः लोके नितरां प्रसिद्धः अधुना ज्ञापकः हा हा वदतु वदतु एतस्याः प्रसिद्धश्लोकः आ, ये प्रसिद्धश्लोकः चित्रं वटतोरुमुले वृद्धाः शिष्याः गुरुर्वा गुरुस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः अधुना ज्ञापक hmm. ज्ञापकः इत्युक्ते ज्ञानं जनयति इति हा सूचकः ज्ञापकः इति हा ज्ञापकः ज्ञानं जनयति तत् घटनायाः ज्ञापकः एव शोकः तत्र श्लोकः प्रसिद्धः अस्ति श्लोकः लोके प्रसिद्धः अस्ति परन्तु <coughs> श्लोकः यत् अस्ति श्लोकेन कस्य अवगमनं भवति तत् एतस्य अवगमनं भवति किम् आत्मचिन्तनम् आत्मविषयकचिन्तनम् mm -hmm. mm -hmm. आत्मनि तुष्टः इति या स्थितिः अस्ति तेन किं भवति स्वस्य विषयक अवगमनं भवति हा बहु किमपि वदामि बहु किमपि पठामि बहु किमपि शृणोमि तत्तु आवश्यकता तु अस्यैव सर्वेषां सा सर्वाणां सा पश्यन्तु साधनानि तु बहूनि सन्ति हा परन्तु आत्मचिन्तनम् इति प्रमुखं साधनमस्ति हा इति घटनायाः ज्ञापकः चित्रं वटतरोः मूले वटतरु वटतरुः अस्ति वटस्य वृक्षः तस्य मुले वृद्धाः शिष्याः गुरुः युवा सर्वे तत्र सम्मिलिताः वटतरो मूले वटतरो मूले गुरोः तु मौनम् गुरोः तु मौनम, गुरो मौनम व्याख्यानं गुरोः व्याख्यानम् इत्युक्ते मौनमेव अस्ति व्याख्यानम् इत्युक्ते वक्तव्यम् इति वदति तत्प्रवचनं ददाति अनन्तरं श्लोकान् वदति एवं न मौनमेव शिष्याः तु छिन्नसंशयः तेन एव शिष्याणां संशयाः छिन्नाः छिन्नसंशया hmm. संशयानां विलनीकरिण विलनीकरणं संशयात्मा विनश्यति इति पाठस्य नाम अस्ति खलु संशयात्मा विनश्यति छिन्नसंशयाः कदा वयं भवामः यदा वयम् आत्मचिन्तने किञ्चित् समयं यापयामः तदा एव नो चेत् तत्र श्रवणम् अनन्तरं लेखनं पठनम् एवं सर्वं परन्तु तत्तु भवेत् तत्तु आवश्यकमेव परन्तु आत्मचिन्तने अपि समय सेपनम आवश्यक बोध अदुना चिंत्र पशन सर्वे कि अपतिणीमस्तम की नदी तिष्या सी परुनो अस्माकृे भगवत चिरा सी हाँ किमपि वदति वा मूर्ति अपि तत्र देवगृहं यत् अस्ति तत्रापि स्थापनं वयं कुर्मः तत् किमपि mm. तत्र वक्तव्यमस्ति वा वदति वा भगवती माता अस्ति तत् वदति किमपि गणेशः अस्ति तत् वदति न तत्र मौनं मौनमेव परन्तु यदा वयम् उपासनां कुर्मः तत् उपासनसमये वा पूजासमये तत् अस्माकं चिन्तनम् अस्माकम् अवधानं तत्र एव अस्ति तेन एव शनैश्चनैः अस्माकम् आत्मबोधनं वा आत्मचिन्तनं प्रचलति इति विषयः हा, हा? अतः अयं श्लोकः तत् प्रसिद्धः श्लोकः इति अन्तिमे चित्रम् वटतरो मूलेः वटतरोमूले वृद्धाः शिष्याः गुरुर्युवा गुरोस्तु मौनम् व्याख्यानं शिष्यास्तु छिन्नसंशयः इति यत् बाल्यकाले वयं सर्वं तत् प्रार्थनां पूजा एवं सर्वम् अस्माकं माता वदति पिता वदति अतः वयं कुर्मः तत् आज्ञारूपेण तु वयं स्वीकुर्मः तत् वयं किमपि न जानीमः परन्तु वयं कुर्मः परन्तु शनैः शनैः अवगमनं भवति यदा वयं प्रगल्भः वा प्रौढाः भवामः तत् तस्य अवगमनं मनसि तिष्ठति सम्यक्रीत्या तस्य स्थापनं भवति छिन्नसंशयः इति अंतिमत तत्ति संशय संशयरहित कदा उत्पद्यते उत्प्य है यदा आत्मस्वान मनसी उपजाते तथा विषय अस्त अत पाठ से नामकरण तथा संशया विनश्य संशया विनश्यती संशय मनसि आगच्छति चेत् गुरुवचने संशय अस्य आत्मचिन्तनं न कृतम् एवं सर्वं संशयग्रस्तमनसा किमपि जीवने तत् तथैव यदा आचरणं करोति ये जनाः कुर्वन्ति तेषां जीवनं सम्यक् न नाशनं भवति इति भगवता वाचा अस्तु रमाभगिनी अस्ति वा क्षम्यतां रमा अहं न नमो नमः अहं न दृष्टवती अग्रिमे वर्गे भवती पठतु हा कृपया अधुना कथायाः विषये वदति वा भवत्याः चिन्तनं hmm. कथायाः विषये वदति वा सम्यक् अस्ति भगिनि बहु सम्यक् अस्ति अवलोकनं बहु बहु बहूनि विषयाः वयम् अवलोकनं करणीयं मौनं दूष्टिं भवति चेत् इति Hmm, hmm, hmm. इत्युक्ते अन्तर्बाह्ययस्वरूपमस्ति तद् ज्ञानस्य अन्तर्बाह्यस्वरूपे बाह्यविषयकज्ञानविषयाः बहवः विषयाः सन्ति तत् केचन जनाः भगवद्गीता पठन्ति अनन्तरं केचन जनाः शास्त्रग्रन्थ ग्रन्थानाम् अध्ययनमपि कुर्वन्ति परन्तु आत्मचिन्तनमपि तथैव युगपथ यदा आत्मचिन्तनमपि प्रवर्तते तत् लाभाय इति विषयः अस्तु अन्यैः अधुना अम्बिकापतिमहोदय आगोस्टो महोदय श्याम्लाभगिनी विना भगिनी वदन्तु सर्वे एकमेकं एकम, जयन्ती भगिनी यदा वक्तुं शक्नोति तत् वदतु कृपया कथायाः ज्ञानम् आत्म आवश्यकं आत्मज्ञानं आत्म नास्ति सत्यं सत्यम् आत्मज्ञानं तत् आत्मचिन्तनम् आवश्यकमिति सत्यम् वीणा भगिनी वदति वा विषयस्य मननं कर्तुम् आवश्यकं भगिनी तस्यैव तत् योगाभ्यासे तावदेव अस्ति तत् तादृशमेव तत आसनानां वा मुद्रा वा तत् प्राणायामं तथैव तत अस्ति खलु श्वासस्य उपरि ध्यानस्य केन्द्रीकरणम् इत्युक्ते तत्र आत्मचिन्तनं मार्गे आत्मचिन्तनस्य एव एतत् सर्वमस्ति मार्गे वयम् अग्रे अग्रे सरामः इति शनै शनैः तत् यदा एक न एकदिनं यावत् एवं तुष्टिम् उपविशामि तत् तत्र तुष्टिं उपवेशनं कुर्मः तदा आत्मज्ञानं जनयति इति न शनैः शनैः तत् भवति इति विषयः अस्ति अस्तु श्याम्ला श्याम्ला भगिनी वक्तुम् इच्छति वा किमपि किमपि कार्यं कर्तुं चिन्तयति चिन् चिन्तय चिन्तयति चेत् तद् ज्ञानं वयम् अभ्यासं कुर्मः अनन्तरं कर्तुं कर, कर, कर गच्छति आम् तत्र अधुना ये जनाः तत्र सन्ति मुनयः तेषां चिन्तनमेव सम्यक् नास्ति अतः तत् सम्बोधने बालाः इति सम्बोधने तेषां मनसि क्रोधः तत् किमर्थं वयं बालाः वयं तु ज्येष्ठाः एतद् सम्यक् चिन्तनम् एव तैः न कृतं किमर्थं तद् बालः इति चिन्तनमपि तत् आवश्यकं यथार्थज्ञानार्थं सम्यक् चिन्तनं मननम् आवश्यकं योग्यं भारतमहोदय वक्तुम् इच्छति वा भारतमहोदय छिन्नसंशया न करोतु संशयाः संशय संशयग्रस्तमनसा किमपि कार्यं यदा भवति अधुना सर्वे मुनयः तत्र ओ कथं वयं बालाः एवं चिन्तनं तेषाम् इत्युक्ते तत्र उपदेशं सुतमुने उपदेश अवधानम पूर्णतया न बाला कि तह एव संबोधन तत्र तबोधय अयम बाला तरह तनसी संशय न सिद्यति संशयानश्य पाठ से नाम शीर्षक तथा अस्थ संशय नवे श्रद्धया अयन कूदया अभ्यासं कुर्मः श्रद्धया चिन्तनं भवेत् इति अस्तु अस्तु yeah. योग्यं सम्यक् सम्यक् सर्वेषां सम्यक् चिन्तनमस्ति अधुना वयं समापयामः अम्बिकापतिमहोदय वदति वा शान्तिमन्त्रेण रेकार्डिङ्ग् श्रुत्वा अग्रिमवर्गे अहं वदिष्यामि बेनि वदति वा अधुना चिन्ता मास्तु चिन्ता मास्तु वद निश्चयेन वदतु भगिनि धन्यवादः धन्यवादः अस्तु अम्बिकापतिमहोदय <laughs> शान्तिमन्त्रम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाद् भवेत् शांति शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम। धन्यवाद धन्यवादः सर्वेषाम् धन्यवादाः